Namo Dundabhyaya, Dundabhyaya cha cha Hananyaya, āhananyaya cha, āhananyaya etya āhananyaya, cha namaha namo dhasnave, dhasnave cha cha pramraśaya, pramraśaya cha, मृषाय देप्र मृषाय शनमः नमो दूताय दूताय च सप्रहिताय प्रहिताय च प्रहिताय देप्रुताय शनमः नमो निषङ्गिने निषङ्गिने च निषङ्गिण इति निषङ्गिने षुधि मते यषुधि मते च यषुधिमत इतिषुधि मते शणमः नमस्तेक्ष्णे शवे तीक्ष्णे शवे च तीक्ष्णे शभ इति तीक्ष्ण विषवे आयुधिने च शमः नमः स्वायुधाय स्वायुधाय च स्वायुधायेतिसु आयुधाय च सुधन्वने सुधन्वने च सुधन्वन इति सो सुधन्वने च नमः नमः नमः्याय काट्याय च नीप्याय नीप्याय च कनमः नमः सोद्याय सोद्याय च द्याय च कवैषन्ताय वैशन्ताय च क्षणमः नमस्तोऽप्याय कोऽप्याय च क्षावट्याय अवट्याय च क्षणमः नमो वर्ष्याय वर्ष्याय च क्षावर्ष्याय अवर्ष्याय च क नमो मेघ्याय मेघ्याय च स विद्युत्याय विद्युत्याय च विद्युत्यायेति विद्युत्याय कमः नम आतप्याय च आतप्यायेत्याय क्षण नमः नमो वात्याय वात्याय च नमः नमो वास्तव्याय वास्तु पाय वास्तु पाय च वास्तु पायेति वास्तु पाय चेति च नवोदन्तध्याय